तोणति ओम्बोदावत् दशकम् वेदस्वरूपम् विष्णोर्वीर्याणि को वा कथयतु धरणे कच्चरेणोन्मिमीते यस्यैवाङ््रित्रयेण त्रिजगदभिमितम् मोदते पूर्णसम्पत् योऽसौ विश्वानि दद्दे प्रियमिह तद्भक्ता यत्र माध्यन् यमरतरस मरन्दस्य यत्र प्रवाह आद्यायाशेषकर्त्रे प्रतिनिमिष नवीनाय भर्त्रे विभूते भक्तात्मा विष्णवे ह प्रदिशति हवेर् कृष्णाद्यं यज्ञार्चनाधौ कृष्णाद्यम् जन्मयो वर्णयेत् सोऽयमेव प्रेतपूर्णो यशोभे त्वरितमभिसरेत् प्राप्यमन्ते पदन्ते हे स्तोतारक्तबीन्द्रास्तमिह कलु यत छेदयत्वे ततैव वेदस्य सारम् प्रणुवत जनन पातलीलाकताभिः जानन्तः शास्य नामान् अखिलसुखकरा नीतिसङ्कीर्तयध्वम् हे विष्णोकीर्तनात्यैस्तव कलुमकतस्तत्त्वभूतम्बजेयम् विष्णो कर्माणि सम्पश्यत मनसि सधायै स धर्मा न बध्नात् यानीन्द्रश्यैष वृद्ध प्रियसक इव च यादनोत्क्षेमकारी ईशन्ते योगसिद्धा परपदमनिचम् यस्य सम्यक् प्रकाशम् विप्रेन्द्राजाकरूका कृतबहुनुतयो यच्च निर्भाषयन्ते नो जातो जायमानोऽपि च समधिगत त्वन्महिम्नोऽवसानम् देवश्रोऽयंसि विद्वान् प्रतिमुहुरपि ते नाम संशामि विष्णो त्वम् नानाविदनुतिवचने अस्य ऊर्ध्वम् विब्राजमाने, विरचितवसतिं, तत्र वैकुण्ठलोके आबसृष्ट्यादिजन्या प्रथममयि विभो गर्भदेशे ददुस्त्वा यत्र त्वय्येव जीवा जलसयनहरे सङ्गता ऐक्यमापन् तस्याजस्य प्रभोते, विनिहितमभवत् पद्ममेकं हि नाभौ दिग्भद्रम् यत्किलाहो कनकधर्णिभृत् लोकरूपं हे लोका विष्णुरेधत् भुवनमजनयत् तन्न जानीत यूयम् युष्माकम् ह्यन्तरस्थम् किमपि तत भरम् विद्यते विष्णुरूपम् नीहारप्रत्यमाया परिवृतमनसो मोहिता नामरूपै प्राणप्रीत्यैकदृप्ता शरतमकपरा हन्तने चामुगुन्ते मूर्नामक्ष्णाम् पदानाम् वकसि खलु सहस्राणि सम्पूर्य विश्वम् त्रप्रोत्क्रम्यापि तिष्ठन् परिमितविवरे बासिचित्तान्दरेऽपि भूतम् भव्यम् च सर्वम् परपुरुषभवान् किञ्चिदेधा्यादिषु आविष्टो ह्युद्गतत्वाधम् अमृतसुकरसम् चानुभुङ्क्षे यत्तुत्रैलोक्यरूपम् दददपि च तदो निर्गदानन्तशुद्ध ज्ञानात्मा वर्तसे त्वम् तव खलु महिमा सोऽपि तावान् किमन्य स्तोकस्ते भागये वा किल भुवनतया दृश्यते द्रंशकल्पम् भूयिष्टम् शाम् मकमुपरि ततो बाधितस्मै नमस्ते अव्यक्तम् ते स्वरूपम् दुरधिगमतमम् तत्तु शुद्धैकसत्त्वम् व्यक्तम् शाप्येतदेव स्फुटममृतरसा भोतिकल्लोलतुल्यम् सर्वोद्दृष्टामभीष्टाम् तदिगुणरसेनैव चित्तम् हरन्ति मूर्तिम् ते संश्रयेऽहम् पवनपुरपते पाहि माम् कृष्णरोघा कृष्णा कृष्णा मुकुन्ता जनार्दन कृष्णा गोविन्दनारायणाहरे अच्युदानन्दगोविन्तमाधवा सच्चिदानन्दनारायणहरे